मुद्गलपुराणं खण्डं सेवन् विघ्नराजचरितम् अध्यायं फोर्टीन् दिदिवरप्रधानम् श्रीगणेशाय नमः दिदिरुवाच गणेशस्य महाभागवधोपासनकं प्रभो तेन विघ्नेश्वरं भग्र्या भजिष्यामि निरन्तरम् मुद्गल उवाच एवम् पृष्ठो महायोगी दित्या तस्यै ददौ मनुम् दशाक्षरम् गणेशस्य विधियुक्तम् विधानविद सा तम् प्रणम्य योगीन्द्रम् कश्यपम् प्रययौ तदः वनम् वृक्षादिसंयुक्तम् तपस्तत्र तदाप वै निराहारेण संयुक्ता गणेशध्यानतत्परा न मन्त्रजापं चकारः त्यक्त्वा सर्वां कामनां स दिदिर्विघ्नेश्वरे प्रभावयोगेन भ्रान्तिहीना भवद्विद्धे पुत्रपौत्रादिके भावे रसहीना बभूवः योगे सुपूर्णभावेन भजत्तं द्विरदाननम् एवं वर्षसहस्रेण योगभूतिपरायणा शान्तियोगं समासाद्य योगिवन्द्या बभूव सा तथा सा दत्तमार्गं तं दिदिस् सस्मा रचेतसि भक्त्या विघ्नेश्वरं देवी नमुच कदाचन ततः प्रसन्नभावेन गणनायकः जगादासौ वरान् ब्रूहि ध्यानस्ताम् मनसेप्सितान् गणेशवचनं श्रुत्वा दिदिर्हर्षसमन्विता उद्धाय तं नमस्कृत्य पूजयामास भक्तितः पुनः प्रणम्य विघ्नेशं सा तुष्ठावकृताञ्जलिः गणेशं दक्षते पुत्री दिदिस्साश्रुमुखाम्बुजा दिदिरुवाच नमस्ते विघ्नराजाय भक्तविघ्नविदारण अभक्तेभ्यो महाविघ्नप्रदायतु नमो नमः काश्यपाय परेशाय विनायकायढुण्ठये लम्बोदराय ते सर्वभोगभोक्त्रे नमो नमः दीनानां पदये तुभ्यं दीनदीनाय ते नमः दीनपालकनाथाय हेरम्बाय नमो नमः परेशाय गणेशाय परात्परतमायते परात्पराणां कर्त्रेते, ते महोदराय वै नमः अनादये च सर्वेषामादिमूर्तिधराय च आदिपूज्याय सर्वेषामन्धस्ताय नमो नमः शिवपुत्राय विष्णोश्च पुत्राय परमात्मने वरेण्यसूनवेतुभ्यं शेषपुत्राय ते नमः सर्वपूज्यायज्येष्ठायज्येष्ठानां ज्येष्ठमूर्तये ज्येष्ठराजतमायैव मात्रे पित्रे नमो नमः ब्रह्मणां पदये ब्रह्मभ्यो ब्रह्मदायिने ब्रह्मणां ब्रह्मरूपायैकदन्दाय नमो नमः गजाननाय देवाय सुराय समभाविने योगाकाराय योगिभ्यो योगादाय नमो नमः किं स्तौमि त्वां गणाधीश शान्तिनां वेदादय शिवाद्याश्च यत्र शान्तिं प्रलेभिरे अतस्त्वां प्रणमाम्येव सर्वेषं तेन विघ्नप सन्तुष्टो भव मे भक्त्या स्वल्पया नादेव नमः यदि वरदो मे श्री तदा मे पुत्र आदराद भवस्वामिन् दया सिन्धो तारिदात्वया। तारिदा त्वया प्रोक्ता वेदेषु द्विरदानन साकं गयामहाभक्रिया भजिष्यामि निरन्तरं त्वं मे पुत्रो यदानाथ भविष्यसि सुसिद्धिदः तव माधुकदं मायामयो बन्धकदाचन भक्तिं त्वच्चरणे धुण्डे देहि नित्यं विशेषदः आसूरीं बन्धगीनां मां कुरुष्व पदप्रियां यवमुक्त्वा गणाधीशम् न नाम दक्षनन्दिनी दिधिष्ठां गणराजश्च जगादहर्षसंयुतः विघ्नेश उवाच त्वया कृतमिदं स्तोत्रं मदीयं मत्प्रियं भवेद् पठदे शृण्वदेवि सर्वसिद्धिप्रदायकम् तव पुत्रो भविष्यामि आसुरी आसुरीभावनाशकः त्वं भजिष्यसि मां नित्यम् भक्र्या भावपरायणा यवमुक्त्वान्तर्दधे सौ विघ्नेशो ब्रह्मनायकः दिदिष्वगृहमागत्य प्रणनामपदिं स्वकम् वृत्तान्तं कथयामास कश्यपो हर्षितो भवद श्रुत्वा तां स समालिङ्ग्य जगाद साश्रुलोचनः कश्यप उवाच धन्यासि कृतकृत्यासि सफलस्ते भवो मदः यया दृष्टो गणाध्यक्षः सर्वेभ्यः शान्तिदायकः अहोते स सुते देवि असुर्या प्रभविष्यदि महद्भाग्यं गणाधीशो योगी वन्द्या त्वमञ्जसा तारितोऽहं त्वया नूनं सुस्त्रिया गणपेरतः धन्यं मे जन्मकर्मादि आसूरीस्वहिदेरता यवमुक्त्वा दिधिं विप्रकश्यपो विररामः दिदि प्रणम्य तं विप्रं सेवायां संस्थितो भवद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दिदि वरप्रधानं नाम चतुर्दशोऽध्यायः ओम्